श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथैकादशोऽध्यायः गोकुलसे वृन्दावनं जाना तथा वर्षासुर और बकासुरका उद्धार शेषुकुवाच भूम्यां निपतितौ तत्र दद सूर्यर्जुनौ बभ्रमो तद्विज्ञायलक्षं पतनकारणम् उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकं कस्येदं कुत आश्चर्यम् उत्पात इति कातराः बाला उचूरने नेति तिर्यगन्तमुलूखलम् विकर्षतां मध्यकेन पुरुषावप्यचक्ष्मणी न तेतदुक्तं जगृहुर्न घटेतेति ते तस्य तन् बालस्योत्पाटनं उलूखलं विकर्षन्तं दाम्ना बद्धं समात्मजं विलोक्यनन्दप्रहसन् वदनो विमोचः गोपीभिस्तोऽभितो नृत्यन् भगवान् बालवत्कचिन् उद्गायति क्वचिन्मुग्धस्तद्वस्रो दारुयन्त्रवत् बिभर्ति क्वचिदाज्ञप्तपीठकोन्मानपादुकं बाहुक्षेपं च कुरुते स्वानां च प्रीतिमा वहन् दर्शयन् तद्विदान् लोकान् आत्मनो भृत्यवश्यतां व्रजस्यो बाहवैहर्षं भगवान् बालचेष्टितै क्रीडिः भोकलाफलानीति श्रुत्वा सत्वरमुद्यतः फलार्थी धान्यमादाय ययौ सर्वफलप्रदः फलविक्रीणी तस्य च्युतद्धान्यं करद्वयम् फलैरपूरि यद्रत्ने फलभाण्डम् अपूरि च सरित्रीरगतं कृष्णं भग्नार्जुनमथाह्वयन् रामं च रोहिणीं देवी क्रीडन्तं बालकैभृशं नोपेयातां यदाहूतौ हु। क्रीडासङ्गेन पुत्रकौ यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् क्रीडन्तं सा सुतं बालै अतिवेलं शहाग्रजं यशोदाजोऽहमीत कृष्णं पुत्रस्नेहस्नुतस्तने कृष्णकृष्टारविन्दाक्ष तात एहि स्तनं पिब अलं विहारे चिच्छान्तक्रीडा सान्तोषिपुत्रक हे रामा गच्छताशोषानुजकुलनन्दन प्रातरेव कृताहार तद्भवान् भोक्तुमर्हति प्रतीक्षते त्वां दासार्ह भोक्षमालो व्रजाधिपः एह्यावयो प्रियं देहि स्वगृहान् यात बालकाः धूलिधूसरिताङ्गन् त्वम् पुत्रमज्जनमावह जर्मक्षमद्य भवतो विप्रेभ्यो देहिगा शुचिः पश्य पश्य वयस्यास्ते मातृमिष्टान् स्वलङ्कृतान् त्वं च स्नात कृताहारो विहिरस्व स्वलङ्कृतः इत्थं यशोदातमशेषन्शेखरं मत्वा सुतं स्नेहनिबद्धबद्धतीर्निप हस्ते निहित्वा सह राममर्जितं नीत्वा स्वबाटं कृतवत्यथोदयम् गोपवृद्धा महोत्पातान्ननुभूय बृहद्वने नन्दादय समागम्य मृजुकार्यमन्त्रयन् तत्रोपनन्दनामाह गोपो ज्ञानवयोधिकः देशकालार्थ तत्त्वज्ञ प्रियकृ रामकृष्णयो उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितै शिवे आयान्त्यत्र महोत्पात बालानां नाशहे तव मुक्तः कथञ्च द्राक्षस्या बालज्ञानं बालकोशो हरेरानुग्रहा नूनम् अनश्चोपरिणापत चक्रवातेन नीतोऽयं दैत्येन विपदं वियन् शिलायां पतितस्तत्र परित्रात सुरेश्वरै यन्नाम्रियेतधुमयोरन्तरं प्राप्य बालक असावन्यतमो वापे तदप्यत्युचदक्षणम् यावदोन्पतिकोरिष्टो ब्रजं नाभि भवेदितः तावद्बालानुपादाय यास्यामोऽन्यदृशानुगाह वनं वृन्दावनं नाम पशं पसव्यं नवकानम् योगयोगी यो गोपगोपी वां सेव्यं पुण्याद्रीतृणवीरुधं तत्तत्राद्यैव यस्यां यास्यामशटान्युक्तमाचिरं गोधां गोधनान्यग्रतो यान्तु भवतां यदि रोचते तच्छ्रुत्वैकधियों गोपाः साधु साध्वीति वादिनः प्रजान् स्वान् स्वान् समायुज्य ययोरूढपरीक्षदाः वृद्धान् बालान् श्रियो सर्वोपकरणानि च अनस्वारोप्य गोपालायत्ता गोधनानि पुरस्कृत्य शृङ्गाण्यापुर्य सर्वतः तुर्यघोषेण महता ययौ स गोप्योरूढरथानूनङ्कुचकुङ्कुमकान्तय कृष्णलीलाजगोप्रिता निष्कञ्च सुवासस